छन्दशामपे मङ्गना कर्तारु वन्देवाणी विजायतौ भवाणी शङ्करो वन्दे श्रद्धा विश्वा शङ्करलोपिनं यमाश्रुतो शिवक्रोपे चन्द्र सर्वत्र वन्दते चेता रामगुणग्रामपुण्यारन्यविहा भव स्थितसङ्हारकारिणीं प्रेषहारिणीं सर्व श्रेयस्करिं शेतां दतोऽहं रामवर्णल्लवा यन्माया वशवर्तृविश्वमखिलम् ब्रह्मादिदेवाचरा य स त्वारमस एव भाति सकलम् रज्जो यथा महे म्भवं शङ्करम् वन्दे ब्रह्मकुलं कलङ्कशमरणम् ऐरामगोपयम् शान्दानन्द्रयोदसौभगतरम् देवायतलोचनं मृतजटा ज्योतेन संशोगतं ते तालक्मसञ्जतं पथि गतम् रामाभि रामं भजे वन्दे and then 국민ively risks <laughs> ीतवस्त्रं सरसिजनयनं सर्वदा सुप्रशम् आणौ नारातुजापम् अपि निकरयुतं बन्धुना ृशताङ्कालदण्डं तं रामचन्द्रं नमाभवं दशरथात्मजमप्रवेयं एतापतिं रघुकुलान्मयर ये महामण्डपे मध्ये पूर्वकया शले मणिमयी धीराशनै सिदम् अग्रे वा जयति प्रभ 2 yeah.